श्रीहरे नमः अत एकादशोऽध्यायः श्रीशुक उवाच श्रुत्वे इदं साधुसभासभाजितं महत्तमाग्रह्य गुरुक्रमात्मनः युधिष्ठ्रोधैत्यपतेर्मुदा युतः प्रपच्च भूयस्तनयं स्वयंभुवः युधिष्ठिर उवाच भगवन् श्रोतुमिच्छामि नृणां धर्मं सनातनं वर्णाश्रमाचारयुतं यत् पुमान् विन्दते परं भवान् प्रजापते साक्षात् आत्मजः परमेष्टिनः सुतानां सम्मतो ब्रह्मन्तपो योगसमाधिभिः नारायणपरा विप्राधर्मं गुह्यं परं विदुः करुणा साधवसान्तास्त्वद्विता न तथा परे नारदौ उवाच नत्वा भगवते जाय लोकानां धर्महेतवे वक्ष्ये सनातनं धर्मं नारायणमुखाश्रुतं ना यो वतीत्यात्मनोऽस्मेन तु धर्मतः लोकानां स्वतस्येद्यास्ते तपो धर्ममूलं हि भगवान् सर्वभेदमयो हरिः स्मृतं च तद्वितां राजन्येन च आत्मा प्रसीदति सत्यं दया तपः शौचम् तिक्षेक्षा समो अहिंसा ब्रह्मचर्यं च त्यात्वाध्याय आर्जवम् सन्तोषसमदृक्सेवा ग्राम्येः परमः सनैः नृणाम् विपर्यये एष मौनमात्मविमर्शनम् अन्नाध्याते संविभागो भूदेव्यश्च यथार्हतः तेषु आत्मदेवता बुद्धेः सुतरां नृषु पाण्डवान् श्रवणं कीर्तनं चास्य स्मरणं महतां गतेहे। सेवे ज्यावनतिर्धास्यं शक्यं आत्मसमर्पणम् नृणायमयं परो धर्म सर्वेषां समुदाहृतः त्रिंसल्लक्षणवान् राजन् सर्वात्मा येन तुष्यति संस्कारायत्तविच्छन्ना सद्विजो जो जगाधयम् इज्जात्ययनदानानि विहितान्विधि जन्मकर्मावधातानां क्रियासाश्रमचोदिताः वृप्रस्यात्ययानादीने षटन् यस्याप्रतिग्रहः राज्ञो वृत्तिप्रजोगोप्तुरविभ्रात्वा वैस्यस्तु वार्तावृतिश्च नित्यम् ब्रह्मकुलानुगः शूद्रस्य द्विजशुश्रूषावृत्तिश्च स्वामिनो भवेद् वार्ता विचित्राशालीनया या वरसि लोञ्चनम् विप्रवृत्तिश्चतुर्धेयं श्रेयसि चोत्तरोत्तर जगन् यो नोत्तमा वृत्तिम् अनाभति भजेन्नरः सर्वेषामपि सर्वसः वृथा मृधाभ्यां जीवेत मृतेन प्रमृतेन वा सत्यानृदाभ्यां जीवेत न कथञ्चन रुधमुञ्जसिलं प्रोक्तम् अमृतं यदयाचितं मृतं तु नित्ययाज्ञा स्यात् स्मृतं सत्यानृतं तु वाणिज्यं स्ववृत्तिर्नीचसेवनं अर्जयेत्थां सधा विप्रो राजन्यश्च जुगुप्सिता सर्ववेदमयो विप्रः सर्वदेवमयो नृपः समोदमस्तपश्चोच्छं सन्तोषस्सान्तिरार्जवम् ज्ञानम् सत्यं च ब्रह्मलक्षणम् शौर्यं वीर्यं धृतिस्तेजस्त्याग आत्मजय क्षमा ब्रह्मण्यता प्रसादश्च रक्षा च शत्रलक्षणं देवगुर्वश्च्युते भक्तिस्त्रिवर्गपरिपोषणम् आस्तिक्यमुद्यमो नित्यं नैपुणं वैश्यलक्षणं शूद्रस्य सन्नतिस्तौचं सेवा स्वामिन्यमायया अमन्त्रयज्ञो ह्यस्त्येयं सत्यं गोविभ्ररक्षणं स्त्रीणां च पदि देवानां तच्छुश्रूषानुकूलता तद्भन्तुषो आनोवृत्तश्च नित्यं तद्व्रत धारणं सम्मार्जनवपले भव्यां गृहमण्डलवर्तनैः स्वयं च मण्डिता नित्यं परिमृष्टपरिश्च कामै रुच्चा कामैरुच्छावशैषाद्वीप्रश्रयेण धमेन च वाक्यै सत्यै प्रियै प्रेम्णा काले काले भजेत् पतिं सन्तुष्टा अलोलुपाधक्षा धर्मज्ञा प्रियसत्यवाक् अप्रमत्ता सुषी स्निग्धा पतिं त्वपतितं भजेत् या पतिं हरिभावेन भजेत् श्रीरिव तत्परा हरेर्लोके पत्या श्रीरिव वृत्तिशङ्करजातीनां तत्तत्कुलकृता भवेत् अचोराणामपानाम् अद्य जान्ते वसायिनां प्रायः स्वभावविहितो धर्मो युगे युगे वेद दृग्भिक्संरथो व्राजन् प्रत्या स्वभावकृतया वर्तमानस्वकर्म कर्म स नैर्निर्गुणतामियात् उप्यमानं मुहुक्षेत्रं स्वयं निर्वीर्यतामियात् न कल्पते पुनः सूत्यै उक्तं बीजं जनश्यति एवं कामासयं चित्तं कामानामतिसेवया विरज्येत यथा राजन्नाग्निवत्कामबिन्दुभिः यस्य यल्लक्षणं प्रोक्तं पुंसो वर्णाभिव्यञ्जकं यदन्यत्राभिदृश्येत तत्ते नैव विनिर्दिशेत् इति श्रीमद्भागवते महापुराणे सप्तमस्तन्ते यदिष्टनारथसंवाते सदाचारनिर्णयो नाम एकादशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्द सद्गुरुनात्मकराजकी जय